हरिओं श्री सीताचंद्राभ्यावामी रायण अयोध्या सर्ग दशरथ कर्तृक श्रीरामराज्याषेक प्रस्ताव संसद सदस्य श्रीराम गुणा वर्णन कुरदि युक्त प्रस्ताव सह संयुक्ति युक्त समर्थनम ततः परीषदं सर्वान् आमन्त्रे वसुधाधिपय हितम् उद्धर्षणं चैवम् उवाच प्रथितम् वचे धुन्दुभि सरकल्पेन गम्भीरेणानुनादिनः स्वरेण महता राजा जीमोत इव नादयन् राजलक्षणयुक्तेन कातेनानुपमेन च उवाच रसयुक्तेन स्वरेण नृपते नृपान् विदितं भवतामेतत् यथा मे राजमुत्तमम् पूर्वकै मम राजेन्द्रैः श्रुतवेत् परिपालितं सोऽहं मिश्वा कुबि सर्वै नरेन्द्रैः प्रतिभालितम् रयसा योक्तुमिच्छामि सुखार्हं नखिलं जगत् मय्याप्याचरितं बुर्वै पन्थानम् अनुगच्छत प्रजा निद्रेण यथाशक्त्याभिरक्षितः इतं शरीरम् कृष्णस्य लोकस्य चरताहितं हितम् पाण्डुरस्य सभद्रस्य छायायां जलितं मया प्राप्य वर्षसहस्राणि भोन्यायुञ्चि जीवतः जीर्णस्यास्य शरीरस्य विश्रान्तिम् अभिरोचये राजप्रभावयुष्टां च दुर्वहान् मजितेन्द्रियै परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् स्वहं विश्राममिच्छामि पुत्रं कृत्वा प्रजायिते सन्निकृष्टानि मान् सर्वान् अनुमान्य द्वि तो हि मां सर्वैः गुणैः श्रेष्ठ ममात्मजः पुरन्दरसमौ वीर्ये राम परपुरञ्जय तं चन्द्रमिव पुष्येण युक्तं धर्मामृताम्बरम् यौवराजे नियुक्तास्मि प्रातः पुरुषपुङ्गवम् अनुरूप सो नातु लक्ष्मी वान् सरलोक्यम् अपि न तेन येन अनेन श्रेयसा सद्य इमामहिं, इमा महीं गतक्वेषु भविष्यामि सुचेतस्मिन् वेश्य वै यदिदं मेनरूपार्थं मया साधु भवन्तु मे न कथं वा करवाण्यहम् यद्यप्येषा मम प्रीति हितम् अन्यद् विचिन्त्यताम् अन्या मध्यस्त चिन्ता तु विमर्द विमर्दाभ्यधिकोदया इति व्रवन्तं मुदिताः प्रत्यनन्दं महामेघं नर्दन्त इव बर्हिणः निग्धोऽनुनादसंज्ञे ततो जनोभुष्टसन्नादो मेदिनीं कम्पयन्निवे तस्य धर्मासविदुषु भावम् आज्ञाय सर्वश्च ब्राह्मणा बलमुख्या च पौरजानपदैः सह समेत्य ते मन्त्रयितुं समतागतबुद्ध्य उच्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् अनेकवर्षसहस्रो हृद समसि पार्थिव स्वरामम् युवराजानम् अभिषिञ्च स्वपार्थिवम् इच्छामो हि महाबाहुम् रघुवीरम् महबलम् गजेन इति तद्वचनम् श्रुत्वा राजा तेषाम् मनप्रियम् चनम् अब्रवीत् श्रुत्व तद्वचनं यन्मे राघवम् पतिमिच्छतः राजान संशयोऽयं मे तदिदम् ब्रूत तत्त्वतः कथं नो मे धर्मेण पृथिवीम् अनुशासति भवन्तो द्रष्टुमिच्छन्ति युवराजम् महाबलम् ते तं चुर्महात्मान ौरजानापदेश बहवो नृपकल्याण गुणाः सन्ति स्वतस्य ते प्रान् गुणवतो देव देवकल्पश्चिमथ देमत कृष्मान् प्रवक्षां मोदयतान् शृणो दिव्ये गुणे शक्रसमो रामश्चत्यपराक्रमः इक्ष्वाकुभ्योऽपि सर्वेभ्यो यतिरिक्तो विशां रामश्चत्पुरुषो लोके सत्यसत्यपरायिणः साक्षात् रामापि निर्वृतो धर्मश्चापि श्रियासहे प्रजाकत्वे चन्द्रस्य वसुधाया क्षमा गुणैः बुद्ध्या बृहस्पति तुल्यो वीर्ये साक्षात् शीपति धर्मज्ञा सत्यसन्धश्च शिरवान्सूयकः कान्तः कृतज्ञो विजितेन्द्रियः मृदुश्च स्थिरचित्तश्च सदा भव्यो न सूयकः प्रियवादी च भूतानां सत्यवादी च राघवः बहु श्रुतानां वृद्धानां ब्राह्मणानामुपासिता ते नास्तेहातुलाकीसी यश तेजश्च वर्धते देवासुरमनुष्याणाम् सर्वास्त्रेषु विचारदः सम्यग् विद्यावृतस्नातो यथावत् साङ्गे च भुवि श्रेष्ठो बभूव भर्ताग्रजः कल्याणाभिजनसाधु अधीनात्मा महामती विजये विनीतश्च श्रेष्ठे धर्मासनैः पुण्यै यदावृजति संग्रामं ग्रामार्थे नगरस्य वा गत्वासो सौमित्री सहितो नाभिजित्य निवर्तते रङ्ग्रामात् पुनदागत्य कुञ्जरेण रथेन वा पौरान् स्वजनमन् नित्यम् कुशलम् परिपृच्छति पुत्रेषु अग्निषु दारेषु च निखिलेनान् पूर्व्या च शुश्रूषन्ते च वैशिष्य कश्चिद्वर्म सुदंशिता इति वृष्य व्याघ्रे सदा रामोऽभिभाषते व्यसनेषु मनुष्याणां भृशं भवति दुःखितः उत्सवेषु च सर्वेषु पितैवे परितुष्यति सत्यवादी महेश्वासो वृद्धसेवी जितेन्द्रियः स्मितपूर्वाभिभाषितः धर्मं सत्सात्मनाश्रितः सम्यग् युक्ता सेयां च न विग्रूह्य कथा रुचिः उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा सुभ्रूवायत साम्राक्ष साक्षात् विष्णु इव स्वयं रामो लोकाभिरामोऽयं शौर्य वीर्य पराक्रमे प्रजापालन संयुक्तो न राघोपहतेन्द्रिय शक्तः श्रीलोक्यमप्येष भोक्तुं किं नु महीम् इमां नास्ति क्रोध प्रदादश्च निरर्थोऽस्ति कदाचन अन्त्यवध्येषु न कुप्यति विनक्त्यर्थै तमसो यत्र तुष्यति दन्तैः सर्वप्रजाकान्तैः प्रीतिसञ्जननै नृणां रामो दीप्तः ेवं गुणसम्पन्नम् रामं तत्यपराक्रमम् लोकपालोपमं नाथम् एकामयत मेदिने वच्य श्रेयसजातस्य ते दृष्ट्या श्रो तव राघवे दृष्ट्या पुत्रगणैर्युक्तो कश्यपहे बालम् रामस्य विदितात्मनः देवासूर्यमनुष्येषु स गन्धर्वो रगेषु च आशंसते जना सर्व काष्ठे पुरवरे तथा आभ्यन्तर च बाह्य च पौरजानपदो जनः स्त्रियो वृद्धा तरुण्य च सायं प्रातः समाहिताः सर्वा देवान् मश्यन्ति रामस्यार्थे मनस्विनः तेषां तद्याचितं तत्प्रसादात् समृद्ध्यताम् रामम् इन्दी वरश्यामम् सर्वशत्रुनिबर्हणम् पश्यामो युवराज्यस्थम् तव राजोत्तमात्मजम् तम् देवदेवोपममात्मजं देव ते सर्वस्य लोकस्य हि ते निविष्टम् पिताय नक्षिप्रमुदारजुष्टम् मुदाभिषेक्तुम् वरदप्समर्हसि इत्यार्षे श्रीमद् रामायणे वाल्मीकी अधिकार्ये अयोध्या काण्डे द्वितीय सर्गः श्रीसीता रामचन्द्रार्पणमतु